अथ अष्टादशोऽध्यायः अन्त्यदिनानि मुम्बईनगरं नौकाद्वारा समागतः रेलयानेन शपद्येव कलकत्तां गतवानपि सन्ध्यायां स विलम्बेन बेलूरुमठमुपागतः महाद्वारं तु विहितं वेलासा भोजनस्य च अतिरुह्य महाद्वारं प्राप्नोत् स्वामीं मठान्तरम् अकस्मात् स्वामिनं दृष्ट्वा सर्वेऽप्यानन्दतुं दिला निजशिष्यसेव्य नाम मायावत्यां हिमालये पञ्चत्वं गति इत्येवं ज्ञात्वा सभसितोऽभवत् आसीर्यदासयुक्ते पूर्वज्ञानं तु किञ्चन तदीयमानसे जातम् एतस्मिन् विषयोपरि दावाङ्गुलं जनौ श्रेष्ठो निजपावनजीवने हैन्दवानां कृते हन्त त्यक्तवन्तौ स उक्तवान् मायावत्या समुपान्ते नदीतीरे निवर्तित सेव्य गात्रस्य दाहो हिन्दो विधिक्रमान् दिने स्वल्पेषु याते सुमी मायावतिं गतः करुणाद्रो बहूवश दृष्ट्वा शिष्यस्य वल्लभाम् आसीत् दुस्साहजनकं तस्य भाषणमाश्रमे पाश्चात्त्यशिष्यवृन्दस्य सेवनं तेन कीर्तितम् यद्यपि श्वासरोगात् तथापि व्यापितश्च नैकसङ्घाङ्कपत्राणां व्यवहारे निरन्तरम् अद्वैतविधिना सर्वे जीवनं यापयन्त्विति आश्रमं स्थापितं पूर्वं मायावत्याम् असंशयं श्रीरामकृष्णदेवस्य चित्रं कुत्रचिदाश्रमे विन्यस्य पूज्यते चेति स्वामिवर्येण लक्षितम् आश्रमस्य नियमानां विरुद्ध्यम् इति भाषितं विवेकानन्दवर्येण व्यवहारम् इदं प्रति अद्वैततत्त्वशास्त्रस्य शिक्षणाय विनिर्मिते आश्रमेण विधातव्या बिम्बपूजेति सोऽवदत् सुस्पष्टं न हि तेनोक्तं तद्द्वारं यद्वितीक्षणात् तथापि न कृतं तत्तु पश्चादाश्रमवासिभिः एकस्मिन् आश्रमे तावद् बहिराराधनं गुरो न भवेदित्यहं चिन्तां कृतवान् किन्तु नो फलं तत्स्थले चापि वृद्ध स अद्य मया बाढं स्वामिनैव मुदीरितम् अनादरो गुरुर्देवं प्रति नैव प्रदर्शितः एतादृशव्यवहारैः दे स्वामिवर्यस्य निश्चितम् उत्कटप्रेम तस्यासि सर्वदापि गुरुं प्रति तस्यान्त्यदिवसे स्वेतद् स्पष्टरीत्या विलोकितम् अद्वैतबोधसुदृढं यस्य चित्ते प्रवर्तते द्वैतचिन्ताप्रभावेण धर्मोन्मद्धो भवेदस च अद्वैतप्रापणार्थं तु द्वैतं मार्गोऽसि केवलं विस्मर्तव्यं न लक्ष्यं तु मार्गमुख्यत्वहेतूनाम् अद्वैतम् अद्वैतम् अस्ति याथार्थ्यपरमं हिन्दुचिन्तने मायावत्याश्रमं श्रेष्ठम् अस्मिन् पश्चात्तले ध्रुवं धर्मै प्राप्येत धर्मैः सर्वैस्वभाविने अद्वैतचिन्तया चेति स्वामिना परिकल्पितं वेलुर्मठं पुनश्चापि स्वामिवर्यसमागत सप्तवारमितं कालं मठे स निवसत्परम् पर्वमङ्गप्रदेशेषु भाषणानां परस्पराम् भाषणानां परम्परां विधातुं स्वामिवर्यस्तु बहुवारं निमन्त्रितः कर्तुं तीर्थाटनं तत्र नानास्थानेषु वाञ्छितं जन्या स्वामिवर्यस्य तस्मिन्नवसरे ह्यपि श्वासरोगप्रमेहाभ्यां स्वामी यद्यपि पीडितः शिष्यैश्च मात्रा सहितं प्रयाणम् अकरोत् स च पूर्वभङ्गं तथा सां प्रदेशं स गतस्तथाम् अकरोत् तीर्थयात्रां च भाषणान्यकरोदपि वेलुर्मठं च आयात सङ्घेन सहितं ततः अस्वास्थ्यं श्यामिवर्यस्य वर्धते स्म शनैः शनैः ततीर्थ्यास्तस्य शिष्याश्च तस्मादाकुलिदाभृतं प्रशान्तजीवनं नेतुं ते सर्वे तं ययाचिरे तान् सन्तोषेतुं श्यामी सप्तमासमितावधौ कुरुते विश्रवं चेति भावेन तथाप्यवसरे जाते स्वामिवर्य प्रदत्तवान् उपदेशान् स्वशिष्येभ्यो विभिन्नविषयोपरि तामिवर्यमुपागन्तुं लब्धुं तस्यानुशासनं विविधेभ्य प्रदेशेभ्य आगता बहवो जनाः नैरास्यं न भवेत् तेषाम् इति स्वामीमचिन्तयत् देकैकं शमिले दद्याद् उपदेशान्तशिष तथापि स्वामिवर्यस्य तदा, तदा नीन्तनञ्जीवनं मठस्य सान्तता मध्ये मन्दे कृतम् अभूत् खलु कटिवस्त्रं धरण्येव विजरंस इतस्ततह। क्वचित् पाचकशालायां पचनं पर्यवेक्षत कदाचित् स्वादिवस्तूनि स्वयं निर्मितवानपि भटान्ते वासिभिः साकम् आलापदकीर्तनं क्वचित् दोहनार्थं ययाचे स धेनो अनुमतिं किल क्रीडामृगै समं स्वामी खेलनं च समाचरत् अजपोतों स्वामिन प्रीति भाजनं। प्रति तस्मिन् स्वामिवर्यो दुःखितो बालको यथा अन्यस्मिन् समये स्वामी चिन्तां चिन्तामग्नोऽप्यजायत यतिस्सन्दर्शकेभ्य स दत्तवाननुशासनं जीर्णत्वं प्राप्नुवदासीतस्य गात्रं दिने दिने तथापि स्वामिवर्यस्य चित्तं तेजोमयं सदा न्यूनतां न हि याति स्म कर्मोत्साहोऽपि तस्य न कुर्या स विश्रमं चेति शिष्यैरतीशमर्थितं नास्ति मे विश्रमं कोऽपि मदीयात्मा वपुस्तथा प्रागेव पुरुनिर्याणात् काली देव्या वशीकृते अतोऽहं सर्वदा कर्म करोमि विश्रमं विना स्वशिष्यं कचिदित्येवं स्वामी प्राह कदाचर गुरुणामरणात् पूर्वं स्वकीयाध्यात्मवैभवं कथं स्वामी निक्षिप्तम् इति शिष्यं स उक्तवान् उत्कर्षमालिसंस्कृत्या देवमाण्या तथाविधं भवेद्धि स्वामिनैवञ्च काङ्क्षितं सर्वदा वृषम् तद संस्थापनं किञ्चित् भवेदेते च तन्मतिः तस्यान्ति मदिने चापि स्वामिनोक्तमिदं प्रति जपानीय प्रतिसाद् हि बुद्धधर्मानुपायिनौ वेलुर्मठं क्षमायातौ स्वामिनं द्रष्टुमेकदा धर्मसम्मेलनं तत्र सम्भवेदविलम्बितम् तस्मिन् भागं गृहीतुं तौ स्वामिवर्यं पचा यच् स्वामिवर्यं यचा चतुः वेदान्ते तत्परा किं वा जपाले यजना इति आशङ्कया तथा स्वस्य स्वास्थ्यराहित्यहेतुना इदं निमन्त्रणं सा बीडहि स्वीकृतवानपि एतद्ध्या किन्तु फलमन्यजयात वैदेशिकयोहम् अनयोरेकम् ओक्काकुराव्यक्षकः कलज्ञकलज्ञाः सोभवद्येन स्वामी सन्तुष्टमानत गन्तुं बुद्धगयां तेन साकं स्वामी तु सम्मतः इदमर्शनम् दिदम इदम् इदमभ्यर्सनं स्वामीवर्येणाङ्गीकृतं व्यपि नवत्रिंशः वयस्कः सः आसीत् आसी यदा ते बुद्धमन्दिरं श्यामी प्र प्राप्तवादितरैः अधिकारी मन्दिरस्य साष्टाङ्गं निपतन् भुवि प्रणामं स्वामीवर्याय सादरं कृतवानपि सप्ताहमितकालं श नमशत्तस्थले तथा अन्ययात्रिकवृन्देन सह वाराणसिं गतः पुरोहिता पण्डिताश्च विविधान्यजनान्यपि स्वामिवर्यस्य सत्कारं भक्तिपूर्वम् अकुर्वत् पुनः कश्चिन् महाराज स्वामिवर्याय दत्तवान् सन्न्यासीमठमेकं तु निर्मातुं तत् स्थले धनम् आरम्भन्तापि यो काके चिस्वामी प्रचोदिताः नितीर्थाटकोखस्य सहायार्थं समुद्यमम् श्रीरामकृष्णदेवस्य से नाम्ना सेवानिकेतनं वाराणस्यां समारब्धं यद्भुत बहु